श्रीहरये नमः अथ पञ्चमोऽध्यायः श्रीशुक उवाच नन्दस्तु आत्मजभुत्पन्ने जाताह्लादो महामनाः आहूय विप्रान् वेदज्ञान् स्नातस्तु चिरलङ्कृतः वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै कारयामासविधिवत् पित्रो देवार्चनं तथा धेनुनां नियुते व्राधाद् विप्रेभ्यः समलङ्कृते तिलाद्रीन् सप्त रत्नौ ग सातकौम्भाम्भरामृतान् कालेन स्नानशौचाभ्यां संस्कारैस्तपसे शुद्ध्यन्ति दानैः सन्तुष्ट्या द्रव्याणि आत्मात्मविद्यया सौमङ्गल्यगिरो विभ्रा सुतमागतवन्दिनः गायकाश्च जगुर्नेदोर्भेर्योधुन्दुभयो मुहुः व्रजसम्भृष्टसंसिक्त द्वाराजिरगृहान्तरः छिद्रध्वजपदागास्र शैलपल्लवतोरणैः गावो वृषावत्सतरा हरिद्रादैलरूक्षिताः विचित्रधातुभर्हश्रग् वस्त्रकाञ्चनमालिनः मखाहवस्त्राभरण कञ्चुकोष्णीशभूषिताः गोपासमाययूराजन्नानोपायनबाणयः गोप्यश्चाकर्ण्यमुदितं यशोदया सुतोद्भवम् आत्मानं भूषयाञ्चक्रोर्वस्त्राकल्पाञ्जनामिभिः नवकुङ्कुमकिञ्जल्कं मुखपङ्कचभूतयः बलिभिस्त्वरितं जग्मो पितृश्रोण्यश्चलत्कुशाः गोव्यसंभृष्टमणिकुण्टलनिष्ककण्ठयश्चित्राम्बराः पतिसिकाश्च्युतमाल्यवर्षाः नन्दालयं सवलया व्रजातिर्विरेजोर्व्यालोलकुण्टलपयोदरहारशोभाः ता आशिष प्रयुञ्जनाश्चिरं पाकीति बालके हरिद्राशूर्णतैलाद्भिः सिञ्चन्त्यो जनमुञ्जगुः अवाद्यन्तविचित्राणि वादित्राणि महोत्सवे कृष्णे विश्वेश्वरे नन्ते नन्दस्य व्रजमागते गोपा परस्परं हृष्टा दधि क्षीरकृधाम्बुभिः आसिञ्चन्तो विलिम्पन्तो नवनीतैश्च शिशुभुः नन्दो महामनास्तेभ्यो वासोऽलङ्कारगोधनं सुदमागतवन्दिभ्यो ये अन्ये विद्योपजीविनः तैस्तैः कामै अधीनात्मा यथोचितम् अपूजयत् विष्णो आराधनार्थाय स्वपुत्रस्योदयाय च रोहिणी च महाभागा नन्दगोपाभिनन्दिता व्यचरत् दिव्यवाच शक्कण्ठाभरणभूषिता तत आरभ्य नन्दस्य व्रजः हरेर्निवासात्मगुणै रमाक्रीडम् अभूनृपं गोपान् गोकुलरक्षायां निरूप्य मथुरां गतः नन्दकं सस्यवार्षिक्यं करं दातुं कुरु वसुदेव उपश्रुत्य भ्रातरं नन्दमागतं ज्ञात्वा दत्तकरं राज्ञे ययौ ददभमोचनं तं दृष्ट्वा सखसोत्थाय देहः प्रणामि प्रीतप्रियतमं दौर्भ्यां सस्वजे प्रेमविह्वलः पूजितः सुखमासीनः पृष्ट्वा अनामयमादृतः प्रसग्धति स्वात्मजयो इदमाकविशाम्पते दिष्ट्या भ्रातस्प्रवयस इदानीम प्रजासाया निवृत्तस्य प्रजा यत्समभद्यत तिष्ट्या संसारचक्रेस्मिन् वर्तमानः पुनर्भवः उपलब्धो भवानत्य दुर्लभं प्रियदर्शनम् नैकत्र प्रियसंवास सुहृदां चित्रकर्मणा ओघेन व्यूह्यमानानां प्लवानां श्रोतसो यथा कच्चित्पसव्यं निरुजं पूर्यं बुद्धृणवीरुधं बृहद्वनं तत्तदुनां यत्राश्चेत्त्वं सुहृद्वृथ भ्रातर्ममसूत कच्चिन्मात्रा सः भवद्व्रजे तातं भवन्तमन्वान् भवद्भ्यामुपलालितः ता, पुंसस्त्रिवर्गो विहितः सुहृदो ह्यनुभावितः न तेषु क्लिश्यमानेषु त्रिवर्गोर्थाय कल्पते नन्दवाच अखोते ते देवकी पुत्र कंसेन बहवो हताः एका वसिष्ठावरजा कन्या सापि दिवं गता नूनं ह्यदृष्टनिष्ठो यमदृष्टपरमो जनः अदृष्टमात्मनस्तत्त्वं यो वेतनसमुह्यति वासुदेव उवाच करो वै वार्षिको धत्तो राज्ञे दृष्टा वयं चवः नेगस्तेयं बहुतितं सन्त्युत्पाताश्च गोकुले श्रीशुक उवाच इति नन्दादयो गोपा प्रोक्तास्ते शौरिणायुः अनोबिरनडुद्युक्तेस्तम् इति श्रीमद्भागवते महापुराणे दशमस्कन्दे पूर्वान्धे नन्दवासुदेव सङ्गमो नाम पञ्चोऽध्यायः सर्वत्र गोपिका जीवनस्मरण गोविन्दा, गोविन्द सद्गुरुनाथमहराजकी जै